श्रीमद्भागवत् महापुराणसप्तमस्कन्ध असद्वादशोऽध्यायः ब्रह्मचर्य के आश्रमोकेणं नारद्वाच ब्रह्मचारीं गुरुकुले वसन्दान्तो गुरुरुहितम् आसन्दासवन्दे च गुरुशूद्रेण सौहृदः सायं प्रातरुपासीतगुर्वग्न्यर्कं सुरोतमान् उभे सन्धे च यद्वागं जपन् ब्रह्म समाहितः छन्दास्य धीयित गुरोराहूतञ्चेत सुयन्त्रितः उपक्रमे वसाले च चरणौ शिरसानवेखलादिवासान्ते जतादण्डकमण्डलुन् बिभ्रयादुपीतं च दर्भपाळे यथोदितं सायं प्रातरश्चरेद्भ्यैक्षं गुर्वेतन्निवेदे भुञ्जेत यद्यनुज्ञातो नो चेदूपवसेत् क्वचिन् सुशीलो विद्भुग्दक्षः सद्धानो जितेन्द्रियः यावदर्थं व्यवहरेत स्त्रीषु स्त्रीं निर्जितेषु च वर्जितेन्द्रमृदागाथाम् अगृहस्तो बृहद्व्रतः इन्द्रियाणि प्रभालीं प्रथां प्रमाथीनिहरन्त्यपि केशप्रसादनोर्मभ्यञ्जनादिकं गुरुस्त्रिभिर्युवतिभिं कार्येन्नात्मनो जिवानन्मग्निप्रमता नामा घृतकुम्भसमपुमान् सुतामपि रहो जह्यादन्यतां यावदर्थपीन् कल्पयित्वात्मना यावं धाभा संविधमेश्वरः द्वैतं तावन्न विर्मेत ततो यस्य विपर्ययः एतत्सर्वं गृहस्थस्य समाम्नाथं जतेरपि गुरुवृत्ते विकल्पेन गृहस्थस्य तु गामिनः अञ्जनाभ्यञ्जनोन्मर्दन्त्रयवलेखामिषं मधु स्रगन्धलेपाकं कारान्त्ययेर्यूर्ये धितव्रताः उसि गुरुकुले द्विजोदित्यावबुध्य च त्वं साङ्गोपनिषदं यावदर्थं यथा वनं दत्त्वा वनं मनुज्ञातो गुरोकामं यदीश्वरः गृहं वनं वा प्रविशेत प्रव्रजेत तत्र वा वसेत् अग्नौ च सर्वभूतैस्वथोक्षजं भूतै स्वधामभिं पश्येत् देवं देवंविधौ ब्रह्मचारी वानप्रस्तो यतिर्गृही चरन्विन्दितं विज्ञानपरं ब्रह्मादिगच्छति वानप्रस्थस्य भक्षाभिमान् मुनिसम्मतान् जानातिष्ठन्मुनिर्गच्छेन्द्रीलोकमिहाञ्जसा न कृष्णपथ्यम् अश्नीयान् कृष्णं चाप्यकालतः अग्निपक्वं रामं वाम् अर्घपक्वमुदाहरेत् वन्यैशरूपरोडाशान्निर्वपेत काकालचोदितान् लब्धे नवे नवे नाद्ये पुराणं तु परित्यजे अग्न्यर्थमेव शरणम् उटजं वाजिकन्दरां श्रयेतं हिंहाजग्निर्वशार्कातं प्रसाद्वयं केसरोमनं शस्मश्रूम् मलानि जटिलो दधत कमण्ड्वल्वाजिलेन्दीन् परिच्छदानतरे द्वने द्वादशाब्दानष्टौ वा चतुरोमुदिः द्वाविकं वा यथा बुद्धिर्न विपद्येतविद्रतः यदा कल्पस्वक्रियायां द्वादभिर्जर्याथवा आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम् आत्मन्यग्नि न समारोप्य सन्न्यस्याहं ममात्मतां कारणेषु न सम्यक् संघातं तु यथार्हतः खेखानि वायोर्निश्वासां तेजस्योष्माणमात्मवान् अप्श्वासक्लेशमपूजानि चितौ शेषं यथोद्भवं वाचमग्नौ स वक्तभ्यामिन्द्रियशिल्पं करावपि पदानि गत्या वयसि रत्योवस्थं प्रजापतौ वृद्धौ पायुं विसर्गं च यथास्थानं दिक्षो दिक्षुस्तोत्रं स्नातेन स्पर्शमध्यात्मनिकृतं रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत् अप्सुप्रचैतथा जिह्वां घ्रेये घ्राणं चितौसेत् मनो बुद्धिं बोध्यैकपौ कर्माण्यध्यात्मना रुद्रे यदहं ममता क्रिया तत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्मैकायिकं परे अप्सूं क्षितिमपो द्योति सतो वाचौ नभस्य कूटस्थे तज्ज तद्व्यक्ते क्षरे चयन् इत्यक्षे आत्मानं चिन्मात्रम् अवशेषितं ज्ञात्वादयोथविर्मेतं दग्धयोनिरिवानलः इति श्रीमद्भागवते महापुराणे पारंजां सहितायां सप्तमस्कन्धे युधिष्ठिर्नारसंवादे सदाचारनिर्णयो लाभात्वासोऽध्यायः